गर्गसंहिता खण्डं टेन् अश्वमेधखण्डम् अध्यायं 51 गर्ग उवाच अथ कृष्णस्तु भगवान् यादवानां च पालनं कृत्वा मिलित्वा प्रययौ रदेनापि कुशस्थलीं कृष्णे गदे निरुद्धस्तु हयं सम्पूज्य यत्नदः बन्धनान्मोचयामास विजयार्थे नृपेश्वर मुक्तस्तुरङ्गप्रययौ देशान् देशान्विलोकयन् पृष्टतस्तस्य राजेन्द्रत्वरम् जग्मुश्च वृष्णयः दुर्योधनम् जितम् श्रुत्वा भूपास्तुत्तम् तुरङ्गमम् प्राप्तम् न जगृहु राष्ट्रे कृष्णस्य बलिनो भयाद अताव्रज व्रज तु रङ्गोयम् शृण्वन् पश्यन्नितस्तदः सम्प्राप्तो भूद्व भूद्वैतवने यत्र राजा युधिष्ठिरः भ्रातृभिर्भार्यया सार्धम् करोति तस्मिन् वने भीमसेनो वनद्वीपकनैः सह नित्यम् करोति क्रीडां वै बालक्रीडनकैरिव ददर्शतुरघम् तत्र तं वनम् गह्वरम् महत न्यग्रोधाश्व खर्जूरपनसैस्तथा बकुलैः सप्तपर्णैश्च शाली पलान्व आगत दृष्ट् दुर्जने दुर्जने वने वराहमृगूलर्पगणर्युदे चि चार संयुक्त गृध्र चिलाुे मृते तथा भुजंग वलीका दर्द निसृद शृगालमर्कमखिशगवयादिभिरन्विदे नीलगो गजभल्लूग मार्जारैवनमानुषैः युक्ते भयङ्करे राजन् भीमो भीमपराक्रमः अश्वञ्जग्राहकेशेषु सपद्रम् नृपलीलया केनोत्सृष्टं वदन्वाक्यं स्वाश्रमम् प्रययौ तथैव चानिरुद्धाद्या जग्मुः सर्वादवाः पश्यन्तो यज्ञगन्धर्वमरण्ये नृपृच्छ्रदः दृष्ट्वा गृहीतम् तुरगमूचुस्ते तु परस्परम् अपोवनचरोह्येष दृश्यते भीमसेनवद बृहद् बाहुर्मः पृष्टो महोच्चो रक्तलोचनः हा गौरकृसधरो धूलिलिप्तो गदाधरः इदं भ्रुवन्तस्ते सर्वे पुनरुचुश्च तं जनं कत्वं श्रीराजराजन्यहयं नीत्वा क्व यास्यसि तस्मान्मो जयशीघ्रं त्वां न चेन्मो शिलीमुखैः यदि तद्वाक्यमाकर्ण्य हयं बद्ध्वा जगह्वरे जगाम स्वगदां गुर्वीं बारायुधसमन्वितां तया जघानसङ्ग्रामे यादवान् भीमविक्रमः निपेदुर्वृष्ण यस्तत्र भीमेन निगताश्च ये अनिरुद्धस्तत क्रुद्धो दृष्ट्वा तस्य पराक्रमं सहस्रवारणान्मत्तान्नोदयामः स शत्रवः ततः गजै सोऽपि भूभृचिकरसन्निभैः पादिदोधरणी पृष्ठे विषाणैरवबीड्यदे ततो भीमसमुद्धाय क्रोधप्रस्फुरिदाधरः मतान् गजान् जघानाथ गदया वज्रगल्पया तदश्च दुद्रुव सर्वे वारणाभयविह्वल कदा तत्सन्निधौसोऽपि ज्ञात्वा भी भीमं दुषङ्गितः उवाच वीरकस्त्वं वद ममाग्रदः सौब्रविद् भीमसेनोहं जित्वा दूतेन हे कदा दुर्योधनेन रिपुणा पुरान् वने वर्षगतश्चाष्टौ चत्वारस्त्ववशेषिताः वर्षमात्रम् करिष्यामो ज्ञात वा पुनः अर्जुनस्तु गद स्वर्गमाकुतो वास्तवेन ज अहं न जाने दुः कदा गमिष्यति महीतले गतत्वम् दु च कुशलम् कथयस्वनः तु रकस्य भूपस्य किमर्थं यूयमागताः यद्युक्त्वा भीमसेनस्तु रुरोदाश्रुपरिप्लुदः दुर्योधनकृतान् क्लेशन् सस्मरन् इति श्रुत्वा स तद्वाक्यन्तं समाश्वास्य दुःखितः भीमायकदयामासवार्तां कथयामास वार्तां सर्वां च विस्तराद श्रुत्वा भीमस्तु मुदितो निरुद्धाद्यैर्यदूतमैः समन्वितस्तु प्रययौ धर्मपुत्रस्य सन्निधौ आकर्तान्या दवाञ्छुत्वाञ्च दशत्रुप्रहर्षितः आनेतुं निर्ययौ राजन्नकुलाद्यै समन्वितः नेमुस्तं यादव सर्वे सोऽपि दत्वा वराशिष्यं निवासयाम समुदा सर्वान् त्वयि धवनेन्द्र सर्वेभ्यो यथा योग्यं यथा रुधि प्रदतौ भोजनं राजा साल्या भास्करदत्तया उषित्वा रजनीमेकां प्रभादे कार्ष्णिनन्दनः क्रदोर्निमन्त्रणं दत्त्वा पाण्डवेभ्य परन्तप यादवै सहितशीघ्रम् मोचयित्वा तुरङ्गमम् ययौ सारस्वतान् देशान् तुरगस्य च पृष्ठतः अश्योंश्च बहून् देशान् त्यक्त्वा कौन्तलकम्पुरम् तस्मिन् पुरे महाराजचन्द्रः षष्ठवैष्णवः पाणितोयकुलिन्देन केरलाधिपदे सुदः कृष्णदेवप्रसादेन राज्यं तत्र करोतिः कदा राजन् जैमिनिभारते अर्जुना विस्तराध्वै नारदेन दुवर्णिताः तस्मिन् पुरे नर सर्वे कृष्णभक्ता वसन्ति ब्रह्मण्या पुण्यकर्तार परदारपरामुखाः सोदार निरधा सर्वे कृष्णपूजनतत्पराः गोविन्दकां शृण्वन्ति पुराणानि तथैव जपन्ति तत्र नामानि राधा माधवयोर्मुदा तुलसीमालिकाभिश्च ह्योर्ध्व पुण्ड्रधरा द्विजाः गोपीचन्दनकाश्मीर हरिमन्दिरचर्चिताः श्याम बिन्दुधरा सर्वे श्रीधरा के जिदेव हि तिलकैर्द्वादशैर्युक्ताश्चाष्टमुद्राधराः पराः गृहस्थाशीतलमुद्राम् गोपीचन्द्रसंयुधान् नित्यम् विप्रादयो वर्णाप्रभादे धारयन्तिः अग्नि संस्कारणार्थम् तु विरक्ता केजिदेव हि तप्तमुद्राम् धारयन्ति केजित् सन्न्यासिनस्तधा तस्मिन् भूद्राजमन्दिरे यत्र राजदि राजा श्रीगर्गसंहितायाम् अयमे दखण्डे कौन्दलपुरगमनं नामैकपञ्चाशत्तमोऽध्यायः ओ